मन्दे पद्मकरा प्रसन्नवदना सौभाग्यदाम् भाग्यदाम् हस्ताभ्याम् अभयप्रदा अभ्या मणिगणेर्नानाविधैर्भूषिता भक्ताभीष्टफलप्रदाम् हरिहर ब्रह्मादिभिः सेविता पार्श्वे पङ्कज शङ्खपद्मनिभिः युक्तां सदा शक्तिभिः सरसिजनिलये सरोजहस्ते धवनतमाशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरे प्रसीद मह्यम् ओ प्रकृतिम् विकृतिम् विद्याम् सर्वभूतहितप्रदाम् श्रद्धाम् विभूतिम् सुरभिम् नमामि परमात्मिका वाचम् पद्मालयाम् पद्मा शुचिम् स्वाहा स्वधां सुधाम् धन्याम् हिरण्मयीम् लक्ष्मी नित्यपुष्टाम् विभावरीम् अदितिम् च दितिम् दीप्ताम् वसुधा वसुधारिणी नमामि कमलां काता कामाक्षी क्रोधसम्भवा अनुग्रहपरां बुद्धिं अनघां हरिवल्लभा अशोकां अमृतां दीप्तां लोकशोकविनाशिनी नमामि धर्मनिर करुणां लोकमातरम् पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां पद्ममाला धरां देवी पद्मिनी दुर्भुजा चन्द्ररूपाम् इन्दिराम् इन्दुशीतला पाकालजननीम् पुष्टिम् शिवाम् शिवकरीं सती विमलाम् विश्वजननी तुष्टिम् दारिद्र्यनाशिनी प्रीतिपुष्करिणीं शान्ताम् शुक्रमाल्याम् वरां श्रियम् भास्करीं बिल्ल वरारोहाम यशस्विनीम यजस्विनी वसुन्धरामुदारा गां हरिणीं हेममारिणी धन धान्यकरीं सिद्धिं स्त्रैण सौम्याशुभ प्रदाम् वरलक्ष्मीं वसुप्रदाम् शुभाराम् हिरण्यप्राकाराम् समुद्रतनयां जया नमामि मङ्गलां देवीं विष्णुवक्षस्थल स्थिताम् विष्णुपत्नीं प्रसन्नाक्षीं नारायण दारिद्र्यध्वंसिनीं देवीं सर्वापद्रववारिणीम् दुर्गा महाकाली ब्रह्मविष्णु शिवात्मिका त्रिकालज्ञानसम्पन्ना देववनिता लोकैकदीपाङ्कुरा श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्र गङ्गाधरा त्वां त्रैलोक्यकुटुम्बिनी सरसिजां वन्दे मुकुन्द मातर्नमामि कमले कमलायताक्षी श्री विष्णु हृत्कमलवासिनि विश्व मातः क्षीरोद जे कमल कोमल गर्भगौरी लक्ष्मी प्रसीद सतत